अथाष्टादशाधिकशततमः सर्गः एतच्छ्रुत्वा शुभम् वाक्यम् पितामह समीरितम् अङ्केनादाय मूर्तिमानाशु गृहीत्वा रक्ताम्बरधराम् बालाम् नीलकुञ्चितमूर्धजाम् अक्लिष्टमाल्याभरणाम् तथा रूपामनिन्दिता ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः अब्रवीतृतदा रामम् साक्षी लोकस्य पावकः एषा ते राम वैदेही पापमस्याम् न विद्यते नैव वाचा न मनसा नैव बुद्ध्या न चक्षुषा सुवृत्ता वृत्तशौटीर्यम् न त्वामत्यचरच्छुभा रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा त्वया विरहिता दीना विवशा निर्जने सती क्रुद्धा चान्तः पुरे गुप्ता त्वच्चित्ता रक्षिता राक्षसीभिश्च घोराभिर्घोरबुद्धिभिः प्रलोभ्यमाना विविधं तर्ज्यमाना च मैथिली नाचिन्तयत तद्रक्षस्त्वद्गते नान्तरात्मना विशुद्धभावाम् निष्पापाम् प्रतिगृह्णीष्व मैथिली न किञ्चिदभिधातव्या अहमाज्ञापयामि दध्यौ मुहूर्तम् धर्मात्मा हर्षव्याकुलोचनः एवमुक्तो महातेजाधृतिमानुर्विक्रमः उवाचत्रिदश श्रेष्ठम् रामो धर्मभृताम्बरः अवश्यम् चापि लोकेषु सीता पावनमर्हति दीर्घकालोषिता हीयम् रावणाम् तः पुरे शुभा बालिशो बत कामात्मा रामो दशरथात्मजः इति वक्ष्यति माम् लोको जानकीमविशोध्य मा अनन्यहृदयाम् सीताम् मच्चित्तपरिरक्षिणीम् अहमप्यवगच्छामि मैथिलीम् जनकात्मजा इमामपि विशालाक्षीम् रक्षिताम् स्वेन तेजसा रावणो नातिवर्तेत वेलामिव महोदधिः प्रत्ययार्थम् तु लोकानाम् त्रयाणाम् सत्यसंश्रयः उपेक्षे चापि वैदेहीम् हुताशनम् न हि शक्तः सुदुष्टात्मा मनसापि हि नेयमर्हति वैक्लव्यम् रावणाम् तः पुरे सीता भास्करस्य प्रभा विशुद्धा त्रिषु लोकेषु मैथिलीजनकात्मजा न कीर्तिरात्ममता यथा अवश्यम् च मया कार्यम् सर्वेषाम् वो वचोहितम् स्निग्धानाम् लोकनाथानामेवम् च वदताम् हितम् इत्येवमुक्त्वा विजयी महाबलः प्रशस्यमान स्वकृतेन कर्मणा समेत्य रामः प्रियया महायशाः सुखम् सुखार्होऽनु बभूव राघवः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकांडे अष्टाद सर्ग